शिवगीता अष्टमोध्यायः श्रीराम उवाच पाञ्चभौतिकदेहस्य च उत्पत्तिर्विलयस्थितिः सुरूपम् च कथम् देव भगवन्वक्तुमर्कसि श्रीभगवानुवाच पञ्चभूतैः समारब्ध देहोऽयं पाञ्चभौतिकः तत्र प्रधानम् पृथिवी शेषाणाम् सहकारिता जरायुजोऽण्डजश्चैव त्वेतजश्च उद्भिजस्तता एवं चतुर्विधप्रोक्तो देहोऽयं पाञ्चभौतिकः मानसस्तु परप्रोक्तो देवानामेव संस्कृतः तत्र वक्ष्ये प्रथमतः प्रदानत्वाज्जरायुजम् शुक्रशोणितसम्भूता वृत्तिरेव जरायुजः स्त्रीणाम् गर्पाशये शुक्रं। ऋतुकाले विषयेद्यदा योषितो रजसायुक्तं। तदेव स्यात् जरायुजम् बाहुल्याद्रजसस्त्री स्यात। शुक्रादिक्ये पुमान् भवेत् शुक्रशोनितयोः साम्ये जायते च नपुंसकः ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि तत्र अयुग्मदिने स्त्री स्यात् पुमान् युग्मदिने भवेत् षोडशे दिवसे गर्भो जायतेदि सुब्रुवः चक्रवर्ती भवेद्राजा जायते, जायते नात्र संशयः ऋतुस्नाता यस्य पुंसः साकाङ्क्षम् मुकमीक्षते तदाकृतिर्भवेद्गर्भः तत्पश्येत्स्वामिनोकम् यास्ति चर्मा वृती सूक्ष्मा जरायुः सा निगद्यते शुक्रशोनितयोर्योगः तस्मिन्नेव भवेद्यतः तत्र गर्भो भवेद्यस्मात् तेन प्रोक्तो जरायुजः अण्डजा पक्षिसर्पाद्याः स्वेदजामशकादयः स्त्रिणगुल्माद्या मानसाश्च सुरर्षयः जन्मकर्मवशादेव निषिक्तम् स्मरमन्दिरे शुक्रम् रजः समायुक्तम् वेशीघनम् मासि तु मासिपिण्डप्रजायते कराङ्िशीर्षकादीनि तृतीये सम्भवन्ति अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ततश्चलति गर्भोऽपि जनन्या जडरे स्वतः पुत्रश्चेद्दक्षिणे पार्श्वे कन्यावामे च तिष्ठति नपुंसकस्तु उदरस्य पागे तिष्ठति मद्यतः अतो दक्षिणपार्श्वे तु चेते माता पुमान्यदी, पुमान्यदि अङ्गप्रत्यङ्गभागाश्च सूक्ष्मा स्युः युगपत्तदा विहाय स्मस्तु दन्तादीन् जन्मानन्तरसम्भवान् चतुर्थे व्यक्तता तेषाम् भावानामपि जायते पुंसां स्थैर्यादयो भाव वीरुत्वाद्यास्तु योषिताम् नपुंसके च ते मिश्रा भवन्ति रघुनन्दन मातृजम् चास्य हृदयम् विषयानभिकाङ्क्षति ततो मातुर्मनोभीष्टम् कुर्याद्गर्भविवृद्धये ताम् च द्विहृदयाम् नारीम् आहुर्दोहृदिनीम् ततः अदानाद्दौवृतानां स्युः गर्भस्य व्यङ्गतादयः मातुर्यद्विषये लोभः तदार्तो जायते सुतः प्रबुद्धं पञ्चमी चित्तम् मां च शोणितपुष्टता षष्ठे अस्ति स्नायुनकर केशलोमविविक्तता बलवर्णौ च उपचितौ सप्तमे तु अङ्गपूर्णता पादान्तरितहस्ताभ्याम् श्रोत्ररन्ध्रेऽपिधाय सः उद्विग्नो गर्भसम्वासाद् अस्ति गर्भलयान्वितः आविर्भूतप्रभोदोऽसौ गर्भदुःखादिसंयुतः हा कष्टमिति निर्विण्णः स्वात्मानम् सोऽसुचीत्यत अनुभूता महासह्याः पुरा असकृते करम्बवालुकास्तप्ताश्च अदह्यन्तसुखाशयाः जठरानलसन्तप्त वित्ताख्यरसविप्लुषः गर्भाशये निमग्नन्तु दहन्ति अतिपृशन्तु माम् उदर्यकृपिवक्त्राणि कूटशाल्मलिकण्टकैः तुल्यानि च तुदन्त्यात्तम् पार्शास्तिक्रगचार्दितम् गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते दुःखम् मयाप्तम् यत्तस्मात् कनीयः कुम्भपाकजम् पूयासृक्श्श्लेष्मपायित्वम् वाताशित्वम् च अशुचौ कृविभावश्च तत्प्राप्तम् गर्भशायिना गर्भशय्याम् समारुह्य दुःखम् यादृङ् मयापितत। तत् नातिशेते महादुःखम् निःशेषनरकेष्टं स्मरन् नानाजातीश्च यातनाः मोक्षोपायमविद्यायन् वर्ततेऽव्यासतत्परः अष्टमे त्वक्सृती स्याताम् ओजस्तेजश्च हृद्भवम् सुभ्रमापीतरक्तम् च निमित्तम् जीवितम् अथम् मातरं च पुनर्गर्भम् चञ्चलं तत्प्रधावति ततो जातोऽट्टमे गर्भो नजीवति जीवति वोजसोच्चितः किञ्चित्कालमवस्थानम् संस्कारात्पीडिताङ्गवत् समयः प्रसवस्य स्यात् मासेषु नवमादिषु मातुरस्रवहाम् नाडीम् आश्रित्य अन्भवतारिता नाडी नाभिस्तनाडीगर्भस्य मात्राहाररसाः तेन जीवति गर्भोऽपि मात्राहारेण पोषितः अस्ति यन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंमृतः निष्क्रामन् वृषदुःखार्थो रुदन्नुच्चैरथोऽङ्कः यन्त्रादेव विनिर्मुक्तः पतत्युत्था न शायुत अकिञ्चित्तस्तथा बालो मांसपेशीसमास्तितः सोमार्जारादिदंष्टिभ्यो रक्ष्यते दण्डपाणिभिः पितृवद् राक्षसं वेत्ति मातृवत्तागिनीमपि उयम् पयोवदज्ञानात् दीर्घकष्टन्तु शैशवम् क्लेष्मणा पिहिता नाडी सुषुम्ना यावदेव हि व्यक्तवर्णम् च वचनम् तावद्वक्तुम् न शक्यते अत एव च गर्भेऽपि रोदितुं नैव शक्यते तृप्तो अत यौवनम् प्राप्य मन्मतज्वरविह्वलः गायत्यकस्मादुच्चैस्तु तथाऽकस्माच्च वल्गति आरोहति तरून्वेगात् चान्तानुवेजयत्यपि कामक्रोधमदान्तः सन् न काञ्चिदपि वीक्षते अस्ति मां च शिरालाया पामायामन्मथालये उत्थानभूतिमण्डूकपाटितोदरसन्निभे आसक्तः स्मरबाणार्त आत्मना दह्यते अस्ति मांसशिरात्पग्म्यः किमन्यद्वर्तते वपुः वामानां मायया मूढो न किञ्चिद्वीक्षते जगत् निर्गते प्राणपवने देहो हन्तमृगीदृशः यथा यताहि जायते नैव वीक्षते पञ्चशैर्दिनैः महापरिभवस्थानम् जराम् प्राप्यातिदुःखितः पीतो रस्को जग्दमन्नम् न जीर्यति तन्न दन्तो मन्तदृष्टिः कटुतिक्तकषायमुख वातबुघ्नकटिग्रीव कर ऊरुचरणोऽबलः यदा युतसमाविष्टः परित्यक्तः सुबन्धुभिः निःशौचोमलदिग्धाङ्गलिङ्गितवरोषितः यायन् असुलभान् भोगान् केवलं वर्तते सर्वेन्द्रियक्रियालोपाद् अस्य ते बालकैरपि ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते यस्माद्दिव्यतिभूतानि प्राप्तान्यपि पराम् रुजम् नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः सागरान्तर्जलगतो गरुडेनेव पन्नगः आकान्ते हा धनं पुत्राः क्रन्दमानः सुदारुणम् मण्डूक इव सर्पेण यद्दुःखम् म्रियमाणस्य स्मर्यतां तन्मुक्षिभिः दृष्टौ आक्षिप्यमाणाया संज्ञया ह्रियमाणया मृत्युपाशेन बद्धस्य प्राता नैवोपलभ्यते सम्मृध्यमानस्तमसा महच्चित्तमिवाविशन् हूतस्तता ज्ञातीन् ईक्षते दीनचक्षुषा अयः पाशेन कालेन मेघपाशेन बन्धुभिः आत्मानम् कृष्यमाणं तम् पीक्षते परितस्तता हिक्रिया बाध्यमानस्य सेन परिशुष्यतः मृत्युना आकृष्यमाणस्य न कल्ल्वस्ति परायणम् संसारयन्त्रमारूढो यमदूतैरदिष्टितः क्व यास्यामीति दुःखार्तः कालपाशेन योचितः किं किम् गृह्णामि त्यजामि किम् इति कर्तव्यता मूढः ऋस्राद्देहात्यजतीयसून् अतनादेहसम्पत्तो यमदूतैरतिष्ठिताः इतो गत्वानुभवदीया यास्ता यमयातनाः यल्लभते दुःखम् तद्वक्तुम् चमते कुतः कर्पूरचन्दनाद्यैस्तु लिप्यते सततम् हि यत् भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते अस्पृश्यम् जायते अप्रेक्ष्यम् जीवत्यक्तं सदा वपुः निष्कासयन्ति निरयात् क्षणम् न स्थापयन्त्यपि दह्यते च ततः काष्ठैः तद्भस्मक्रियते क्षणात् पक्ष्यते वाष्गालैश्च गृध्रकुक्कुरवायसैः पुनर्न माता पिता गुरुजनः स जनो ममीति मायोपमे जगति कस्य भवेत्प्रतिज्ञा एको यतो व्रजति कर्मपुरःसरोऽयम् विश्रामवृक्षसदृशः खलु जीवलोकः सायं सायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन तेन प्रयान्ति त्यक्त्वान्योन्यम् तम् च वृक्षम् विगङ्गा यद्वत् तद्वत् ज्ञातयो ज्ञातयश्च मृतिबीजम् भवेज्जन्म जन्मबीजम् भवेन्मृतिः कटयन्त्रवदश्रान्त बभ्रमीत्यनिशं नरः गर्भे पुंसः शुक्रपादात् यदुक्तम् मरणावधि तदेतस्य महाव्यादेर् मत्तो नान्यो भेषजम् इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघवसंवादे पिण्डोत्पत्तिकथनम् नाम अष्टमोऽध्यायः